अथर्वेदे अष्टमाष्टके सप्तमोऽध्यायः ओ तदि सभुवने शुज्येष्ठञ्यतोजज्ञ उग्रस्पेष नृम्णः सद्योजज्ञानो निरीणातिशत्रो ननुयम् युष्पेमदन्त्यूमाहाः आवृधानः श्रवसा भूर्यो अजाः शत्रुर्दासायभियसन् अव्यनच्चव्यनच्चस स्ृशन्ते एरवन्द्रप्रभृता मदे एषु त्वे क्रतुमभिरुञ्जन्ति विश्वे द्विर्यते ते त्रिर्भवन्त्योमाः स्वादोस्वादीयस्वादुनाः सृजासमदस्वमधुमधुनाभियोधीः इति चिद्युत्पादनाजयम् तम् मदे ए मदे अनुमदन्ति विप्राः ओजी यो धृष्णो स्थिरमादनुष्कमात्पा आदभन्या तुधाना आदुदेवाः तया आवयंशा आशद्महेरणे एषु प्रपश्यन्तो युधेऽन्याः निभूरि चोदयामितः युधावचोभिः सन्देशिषाभिब्रह्मणा वजांसि स्तुशेयम् पुरुवर्पसमभ्वमिनतममाप्यमाप्त्यानाम् आदर्शते शपसा सप्तदानोन्प्रसाक्षते प्रतिमानानि भूरि नितर्दधिशे परम् परम् च यस्मिन्नाविधापसा दुरोणे आ मातरा आस्थापयसे जगत्नो अत इनो शिकर्वरा पुरोणि इमा ब्रह्म बृहद्दिवो विभक्तीन्द्रायशूषमग्र्यस्पर्शाः महो गोत्रस्य क्षयति स्वरा जोतुरश्च विश्वाः अवृणोदपस्वाः महान् देवा महान् बृहद्दि वोथर्वा वो जत्स्वान्तन्वा अमिन्द्रमेव स्वसा हारो मातरिभरीररिप्रा हिन्नन्ति दशवसावर्धयन्ति च हिरण्यगर्भः समवत्तदाग्रे भूतस्य जातः पतिरेक आसीत् सदा आचारपृथिवीन्यामुते माम् कस्मै देवाय हविषा विधेम य आत्मदा बलदा यस्य विश्व उपासते प्रशिषञ यस्य देवाः यस्य छायामृतम् यस्य मृत्युः कस्मै देवाय हविषाविधेम यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव य ईशे अस्यद्यपदश्चतुष्पदः कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तो महित्वायस्य समुद्रम् रसयासहाहुः यस्येवाः प्रदिशो यस्य बाहो कस्मै देवाय हविषा आविधेम येनो रुग्रा पृथिवी च दृह्णायेन स्वस्थभितै येन नागाः योऽन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा आविधेम यम् क्रन्दसि अवसादस्तभाे अभ्यैक्षेताम् मनसारेजमाने आपो अहयद्बृहतेर्विष्ममायन् गर्भम् दधा आनाजनयन्दीरग्निम् ततो ओ देवानाम् समवर्तता सुरेखः कस्मै देवाय हविषा आविधेम यश्चिदापो ओ महिना पर्यपश्चन् यो देवेष्पथि देव एक आसीत्कस्मै मानोऽ हिंसे जनितायः पृथिव्यायोपाधिमम् सत्यसर्माददान दष्टापश्चन्द्रा बृहतेर्जदान कस्मै देवाय हविषा विधेम प्रजा आपते आपदे नान्यन्यो विश्वा आजातानि परिताबभूव यत्का आमास्तेज हुमस्तन्नो अस्तु वयम् स्यामपतयो रहीराम् वसुन्नचित्रमः सङ्गृणीषे वामंशे ममतिथिमद्विषेण्यम् सरा आसते शुरुधो विश्वदायसो निर्होतार्हपतिः सुवीर्यम् झाणो अग्ने प्रतिहर्य मेमजो ृतनिर्निर्ब्रह्मणे कातुमेरय तपदेव अजनयन्ननूरम् सप्तधामानिपर्यन्नमर्त्योदाशब्दाशुषे सुहृदे मामहस्व सुवीरे एण रयिणा आग्ने स्वाभुवायस्त आनः समिधातञ्जुषस्व यज्ञस्य केतुम् प्रथमम् पुरोहितम् हविष्मन्त ईळते सप्तवादिनम् शृण्वन्तमग्निम् कृतपृष्ठमुक्षणम् वृणन्तम् एवम् सुवीर्यम् त्वम् दूतः प्रथमो वरेण्यः स होयमानो अमृताय मत्स त्वाम् मर्जयन् मरुतो दाशुषो गृहे त्वाम् स्तोमेभिभृगवोभिरुजुः इषम् दुहन् सुदुघाम् विश्वधाय संयज्ञप्रिये यजमानाय सुकृतो अग्ने एघृतस्तुस्त्रितारिद्यद्वर्तिर्यज्ञम् पर्यन्त् सुक्रतो यसे त्वामिदस्या उषसोऽ व्युष्टिषु दूतम् गृह्वाना अजयन्तमारुषाः त्वाम् देवामहयाय्या आयवामृथुराज्यमग्ने निभृजन्तो अध्वरे यित्त्वावसिष्ठा अश्वन्तवाजिनम् गृणन्तो अग्ने विदसे एषु प्रायस्पोसंयजमानेषु धारयम्बातस्वस्तिभिः सदानः अजयम् वेनश्चोदयत्प्रश्निगर्भाज्योतिर्जराजो रजसो विमानेः इममपाम् सङ्गमे सूर्यस्य शुम्न विप्रामतिभिरिहन्ति समुद्रादूर्ण्यमुदयर्ति वेनो न भोजाः पृष्ठम् हर्यतस्य दर्शि ऋतस्य सानावधिविष्टविभ्राट्समानयोनिमभ्यमोषगौराः समानम् पूर्वीरभिमावशालास्तिष्ठन् वत्सस्य मातरः सनीः ऋतस्य सनावधिचक्रमाणारिहन्ति मध्वो अमृतस्य वाणीः जानन्तो रूपमकृपन्त विप्राः मृगस्य घोषम् हृतस्य हिग्मन् ऋते नयन्तो अधिसिन्धुमस्थुर्विदगन् सर्वो त्सराजारमुपसिष्मियाणायोजोषा विभर्तिपरमेव्योऽ मन्न च रत्प्रियस्य योरिषुप्रियः सन्त्यैरत्पक्षे हिरण्यजे स वेनः नाके एषु पर्णमुपयत्पतन्तम् हृदा वेनन्दो अभ्यचक्षतत्वा हिरण्यपक्षम् वरुणस्य दूतम् यमस्य यो नौषकुनम्भुरण्युम् ऊर्ध्वोऽगन्धर्वो अधिनाके ए, अधिना ए अस्थात्प्रत्यम् चित्रा वसा आ नो अत्कम् स्वा अर्णनामजनदप्रियाणि द्रः समुद्रमभियज्ञिका आदिपश्यन् गृध्रस्य चक्षसा विधर्मन् भानुः शुक्रेण शोदिषा चकारस्तृतीय एचक्रेरजसि प्रियाणि इमन्नो अग्न उपयज्ञमे अजे एवाद्देवः प्रजता गुहायन्द्रपश्यमानो अमृतत्वमे एमि शिवञ्यत्सन्तमशि गोजहा आमि स्वात्सख्यादरणीन्नाभिमेमि पश्यन्नन्यस्यातिथिम् वयाया आवृतस्य धामभिमिमे गुरूणे शंसा आमि पित्रे असुरायशेवमयज्ञयाद्यज्ञयम् भागमे एमि बह्वे समा आतरमन्तरस्मिन्निन्द्रम् मृणानः पितरम् अग्निः सोमो वरुणस्तेच्यवन्ते पर्यावर्द्राष्ट्रम् दवाम्यायन् निर्मा आया उत्थ्ये असुरा अभूवन्तम् च मावरुणकामया आसे हृतेन राजन्नृतम् विविञ्चन् मम राष्ट्रस्याधिपत्यमेः इदम् स्मरितमिदा आस वामयम् प्रकाशपूर्वा अन्तरिक्षम् हरा आवृत्र निदेहि सोम हविषा आजजाम कविः कवित्वादिविरूपमासजदप्रभूते वरुणोनिरपसृजत् क्षेमम् गृह्वानाजनजोरसिन्धवस्ता अस्य वर्णम् शुचयो भरिभ्रति आ अस्य ज्येष्ठमिन्द्रियम् सजन्ते ता इमाख्य एति स्मतजा मदन्तेः आम् विशो न राजानमृणानाबे एभत्सु वो मेभत्सूनाहम् सयुजम् हंसमापुरपान्निव्यानाम् सख्येतरन्दम् अनुष्टुभवनु चूर्यमाणमिन्द्र निजिक्युः कवयो मनीषा अहम् रुद्रेभिर्वसुभिश्चराम्यहमाहादित्यैरुतविश्वदे वैः अहम् मित्रावरुणो भव विभर्म्यहमिन्द्राग्ने अहमश्विनो वा अहम् सोमवानसम् विभर्म्यहम् तुष्टारमुतभूषणम् अहम् तथा विद्रविणम् अविष्मते सुप्राव्ये ए अहम्राष्ट्रे सुंहते अहम् राष्ट्रे ये सङ्गमनेव सोऽनाञ्चिदृषे पुरुत्रा भूरिस्थात्राम् भूर्या आवेशयन्ति मया सो अन्नमर्तियो विपश्यति यः प्राणितियैहिम् शृणोत्युक्तम् अमन्त वोमान्त उपक्षियन्ति श्रुतिः श्रुतश्रद्धिवन्ते एव वदामि अहमेव स्पजमिदम् वदामि दुष्टम् देवेभिरुदमानुषेभिः यङ्कामयेतन्तमुग्रम् कृणोमिदम् ब्रह्माणन्तम् सुमेधा अहम् रुद्रा यथनुरातनो मि ब्रह्मद्विषे अहम् जनाय समलम् गृणोम्यहन्यावाह पृथिवी आविवेश अहम् सुबेपितरमस्य मूर्धन्नमयो निरप्स्वाहन्तः समुद्रे ततोऽपि तिष्ठे भुवनानुविश्वो तामोऽ्याम् वर्ष्मणोपस्पृशामि अहमेव वात इव प्रवाहम्यारभमाणा भुवनानि विश्वाः परो दिवा पर न तमम्भो नदुरितम् देवासोऽष्टमर्त्यम् सजोषसोऽयमर्ययमामित्रोऽनयन्ति वरुणोऽतिद्विषाः तद्धिवजम् ऋणेमहे वरुणमित्रार्यवन् येनानिरह्म सोऽयम् पाथनेथाजमर्थ्यमतिद्विषाः येनोऽनन्नोयमूतये वरुणो मित्रो अर्ययमा न इष्ठा उनो नेषणि पर्षिष्ठा उनः पर्षण्यतिद्विषाः योऽयम् लिष्पम् परिपासवरुणो मित्रोऽर्यवा युष्माकम् शर्मणि प्रिये श्यामसु प्रणीतयो तिद्विषाः आदित्यासो अतिश्रितो वरुणो मित्रोऽर्यव उग्रम् मरुद्भे रुद्रम्बुभेवेन्द्रमग्निम् स्वस्तयेतिद्विषाः नेता आर ऊषुणः स्थिरो वरुणो मित्रोऽर्यवा अतिविश्वा आरितुविता राजा आनश्चलषणी नाम तिद्विषाः श्रमस्मभ्यभूतये वरुणो मित्रो अर्य वा शर्म यच्छन्तु सप्रथ महे अतिद्विषाः यथा आहत्यद्बसवो गौर्यञ्चित्पदिशिताममुञ्चतायत्राः एवोऽश्वा अस्मन्मुञ्चताव्यम् हः प्रतार्यज्ञे प्रतरन्न आयुः विश्वा अधिश्रियो ओधिता ओर्वप्रा अमर्त्या निबतो देव्यो उद्वताः ज्योतिषाबाधतेतमाः निरुस्पसा नमस्कृतो च सन्नेव्यायते अपेदुहासतेतमाः सा नो अद्ययस्या वयन्नितेयामन्नविक्ष्महि वृक्षे न वसतिम्बजाः निग्रामा आसो अविक्षतनिपद्वन्तो निपक्षिणाः निश्येनासश्चिदर्थिनाः यावया वृक्ष्यामृगैवयस्ते नमोऽर्म्ये अथा आ नः सुतरा भव उपमापेऽपि सत्तमः कृष्णम् व्यक्तमस्थित उषऋणेव जातय जा। उपतेगा इवाकरम् मृणेष्व रात्रिस्तो रात्रिः सोमन्न जिगुषे आरात्रिपार्थिवम् दिवस्तदांसि बृभते वि तिष्ठस आत्मेषम् वर्तते तमाह एते एरात्रि चक्षसो युक्तासो ओनपतिर्नव अशीतिः सन्पष्टा उतो ते ए सप्तसप्ततीः रात्रीम् प्रपद्ये जननी इम् सर्वभूतनिवेशनीम् भद्राम् भगवतीम् विश्वस्य जगतो निशाम् संवेशिनी इम् प्रपन्नोऽहम् शिवाम् रात्रीं भद्रे पा आरमषीमहि भद्रे पा आरमषी मह्योन्नमाः स्तोष्यामि प्रयतो देवीम् शरण्याम्बहृजप्रियाम् सहस्रसंहितान् दुर्गाञ्जातवे एतसे सुनवाम सोमम् शान्त्यर्थम् तद्विजातेनामृषभिः ऋग्वे एत्वम् समुत्पन्नाराः ते यतो निदहाति वेदाः ये त्वाहम् देवि प्रपद्यन्ति ब्राह्मणा व्यवाहनेम् अविद्या बहुविद्यावासनः प्रचलति दुर्गाणि विश्वाः ये अग्निवर्णाम् शुभाम् सौम्याम् दुर्गेषु विषमे घोरे सङ्ग्रामे एरिपुसङ्कटे अग्निचोरनिपातेषु दुष्टग्रहनिवारणे दुर्गेषु विषमेषु त्वम् सङ्ग्रामे येषु वनेषु च मोहयित्वा प्रवर्ध्यन्ते तेषाम् मे अभयम् कुरु तेषाम् मे अभयम् कुर्वोन्नमः केशिनीम् सर्वभूतानाम् पञ्चमीति च नाम च माम् समादिशा देवे सर्वतः परिरक्षतु सर्वतः परिरक्षत्पोन्नमाः ता अग्निवर्णान्तपसाद्वनन्दीम् वै एलोचनीम् कर्मफलेषु दुष्टाः दुर्गाम् देवीम् शरणमहम् प्रपद्ये सुतरसितलसे नमः सुतरसितलसेनमाः दुर्गाः दुर्गेषु स्थानेषु शन्नोदे एवेरभिष्टये य इमम् दुर्गास्तवम् पुण्यम् रात्रौ रात्रौ सदा पठे रात्रिः कुशिकसौभरो रात्रिर्वाभारद्वाजे रात्रिस्तवो गायत्री रात्रे, रात्रे, रात्रे, रात्रे एषोक्तम् जपे नित्यन्तत्कालमुपपद्यते पुलोकयातुम् शुशुलोकयातुम् जहिष्वयातुमुतपोकयातुम् तुमुदगृध्रयातुम् धृषते एव प्रभृणरक्ष इन्द्र विषङ्गभृष्टिमम् वृणम् पिशाचिमिन्द्रसंवृण सर्वम् रक्षो निवर्णयाय हिमस्यत्वा ददायुनाशाले परिं ययामसि उत ह्रदोहि नोचि योग्निर्ददातु भेषजम् शिशे एतह्रदो अजातपुत्रपक्षाया आहृदयम् अमदूयते विपुलम् वनम् बह्वाकाशञ्चरजातवेदः कामाय माञ्चरक्षपुत्रांश्च शरणमभूत्तव पिङ्गाक्षलोहितग्रे एव कृष्णवर्णनमोऽस्तु ते अस्मान्निबर्हरस्येनाम् सागरस्योर्मजो यथा इन्द्राः क्षत्रम् ददातु वरुणमभिषिञ्चत् शत्रवो निधनम् यान्तु जयत्तम् ब्रह्म तेजसा कपिलजटीयम् सर्वभक्षम् चाग्निम् प्रत्यक्षदैवतम् वरुणम् च वशाम्यग्रे हे मम पुत्रांश्च रक्षतु मम पुत्रांश्च रक्षत्वोन्नमः साग्रम् वर्षशतञ्जे एव विवख आदतमोदत दुःखितांश्च द्विजांश्चैव प्रजाम् च पशुपालय यावदादित्यस्तपति यावद्राजति चन्द्रमाः यावद्वायुः प्लवायति तावज्जीवजया जया येन केन प्रकारेण को हि नामनुजीवति परे एषामुपकारार्थम् यज्जीवति स जीवति येषाम् ऐश्वानरेम् सर्वदे एवान्नमोऽस्तु ते न चोरभयन्न च सर्पभयन्न चूयाघ्रभयन्न यस्यापमृत्युर्न च मृत्युः सर्वम् लभते सर्वम् जयते ममाग्ने वर्चो विहवेश्वस्तु भजन्तेन्धानास्तम्बम् भुषेम मह्यम् न मन्ताम् प्रतिशश्चतस्रस्तजाध्यक्षेण पृतना जयेम मम देवाभिहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ममान्तरिक्षमुरुलोगमस्तु मह्यम् वातः पवताम् कामे अस्मिन् मयि देवाद्रविडमा यजन्ताम् मय्याशीरस्तु मयि देवः ओतिः दैव्या होता आरो वनुषन्तपूर्वेरिष्टास्यापतम् वा आह मह्यै यजन्तु मम यानि हव्याको ओतिः अस्तु ये मानिका अंकतमच्चनाहं विश्वे, देवासो विश्वे ए देवासो अधिवोचतानः देवे ईश्वुर्वीरुनः कृणोत विश्वे ए देवास इह वे एरजध्वम् मा अस्महि प्रजयामातनो बर्मारधामद्भिषते सो ओमराजन् अग्ने ए मन्युम् प्रति परे एषा मदब्धो गोपाः परिपाहिनस्तम् प्रत्यञ्चोयन्तु निगुतः पुनस्तेषा अञ्चित्तम् प्रबुधाम् विने एषत् धाता धातॄणाम् भुवनस्य यस्पतिर्देवम् प्रातारमभिमातिशाहम् इमै यज्ञमश्विनो भावृहस्पतिर्देवाः पान्तु यजमानन्यर्थात् ब्रुवृता नो महिषः शर्मजम् स तस्मिन्भवे पुरुहूदः पुरुक्षो स नः प्रजायै अर्यस्वृयेन्द्रमानो ओरेरिषोमापरा आदाः येन सपत्नाः पते भवन्तिन्द्राग्निभ्यामवपादामनेतान् वसवो रुद्रा आ आदित्या उपरिस्पृशम् वोग्रम् चेत्ता आदमधिरादमक्रन् अर्वाञ्चमिन्द्रममुतो ओहवाम हेयो गोजिद्धनजिदश्वजिद्यः इमन्नो यज्ञम् विहवेयुषस्यास्य गुल्मोहरिवो मेधिनन्ता आयुष्यम् वर्चस्यम् राजस्पोषमोद्भिदम् इदम् हिरण्यम् वश्चस्पज्जैत्रायाविशतादिमाम् उच्चैर्वाजे प्रतनाशाट् सभासाहन्धनञ्जयम् सर्वाः समग्रारुद्धजो हिरण्येऽस्मिन्समाहिताः शुनमहम् हिरण्यस्य पितुर्माने एव जग्रहा ते न माम् सौर्यत्वदमकरम् गोरुषु प्रियम् सम्राजम् ध्रुवा लक्ष्मीराष्ट्रस्य या मुखेतया मामिन्द्रसंसृज अग्ने प्रजातम्बर्यभिरण्यमृतम् यज्ञे अभिमर्त्येश एनद्वे दश इद एनमर्हति जरा मृत्युर्भवति यो विभक्ते यद्वेदराजा वरुणो यदु देवी सरस्वती इन्द्रो यद्वृत्रहावे एतन्मेवर्च्यसहायुषे न तद्रक्षांसिनपि शाचाश्चरन्ति देवानामो नः परमजं ह्ये भर्तिदाक्षायणा हिरण्यम् स देवेषु वृणुते दीर्घमायुःसमनुष्येयेषु वृणुते दीर्घमायोः यदा बद्धन्दाक्षायणा हिरण्यम् शतानिकायकुमलस्य माना तन्न आबद्धामि शतशाहारदायायुष्माञ्जरदश्च यथा ृता दुर्लुप्तम् मधुमत्सुवर्णम् धनम् जयन् धरुणम् धारयिष्णो ऋणक्सपत्नादधरांश्च कुण्वतारोऽहमाम् महते सोभगाय प्रियम् मा देवेषु प्रियम् राजसु मा कुरु प्रियम् विश्वे एषु गोत्रेषु मैधेः रुचारुचम् अग्निर्येन विराजति सूर्यो येन विराजते विराज्येन विराजदिरेनास्मान् ब्रह्मणस्पते विराजसमिधम् पुरौ विराज सदा आसीत् पदानेन्नासेद्रजो नो व्यो ओमापरो यत् किमापरे वह्हकस्य शम्बन्नम् भक् किमा, किमा आसीद्गहनम् गभीरम् न मृत्युरा आसीदमृतन्नतर्हि न रात्र्या अह्न आसीत् आने एतम् स्वधजातदेकम् तस्माद्धान्यन्नभरः किञ्चनास तम आसेत्तमसा गूढमग्रे प्रगेतम् सलिलम् सर्वमा इदम् तुच्छेनाभ्यभिहितम् यदासेत्तमसस्तन्महिनाजायतैकम् कामस्पदग्रे समवर्तताधिमनसोरेतः प्रथमम् यदासेत सतो बन्धुमसति निरविन्दन् हृदि प्रदेश्या कवयो मनीषा तिरश्चे नो विततो रश्मिरे एषा मधस्विदासीसीतोधासन् महिमान आसन् स्वधा अवस्था प्रयतिः परस्तात् को अद्धा वे एदक इह प्रभो चत्कुत आजाताकुत इयम् विसृष्टिः अर्वाग्देवा अस्य विसर्जनेनाथा को वे एदयत आ इयम् विसृष्ट्यरि यत आ बभूव यदि वा यो अस्याध्यक्षः परमे यो अमन्सोऽवे एद यदि वा न वेद यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतम् देव कर्मेऽभिराजतः इमे वयन्ति पितरो य आजयुः प्रभयापभयेत्या आसते तते पुमाङ्गेन पुनर्त्यपुमान्विदत्ने अधिनाके अस्मिन् इमे मयोखा उपसेदुरोषदः सा मा आनिकृस्तसरान्योतवे आसेत् तमाप्रतिमा किम् निरानमाद्यम् किमा आसीत् परिदिः कः आसीत् छन्दः किमा आसीत् प्र उदम् किमुत्थम् अग्नेर्गाः यत्र भवत्सजुग् वोष्णिहया सवितासम्बभूव अनुष्टुभासोममुक्तैर्महस्वानृहस्पतेर्बृहते वाचमावत् विराण्मित्रावरुणयोरभिश्रेलिन्दस्य त्रिष्टुविहभागो अह्नाः विश्वान् देवाञ्जगत्या विवेशतेन चाकुर्प्रषयोमनुष्याः जाते पितरो नः पश्यन्मन्ये मनसा चक्षसाचार्य इमयज्ञमन्तपूर्वे सहस्तो माः सह छन्दस आवृतः सह प्रमार्षयः सप्त दैव्याः पूर्वे पन्था मनुदृश्यधीराः अन्वालेभिरेदथ्यो न रश्मीर अपप्राच इन्द्रविश्वाङ्गमित्रा न पापाः चो अभिभूतेऽनुदस्व अपोदे देये च अपशोराधरा च पुरौ यथा तव शर्मन्मदे कुविदङ्गयवमन्तोजमञ्चिद्यथा नु पूर्वम् विजूय इहेहैशानुजे बर्हिषो नमो वृत्तिर्न जग्मुहो न हि स्थोर तथा यातमस्ति नोदश्रवो विविते सङ्गमेशो गव्यन्त इन्द्रम् सख्याय विप्राः अश्वायन्तो भिषणम् वाजयन्तः युवम् सुराममश्विना नमुचा वा सुरे सचापाशुभस्पते इन्द्रम् कर्मस्वावतम् पुत्रमिव पितरावश्विनोभेन्द्रावधुः काव्यैर्दम्धनाभिः यत्सुरामम् व्यपि पश्यतेभिः सरस्पते त्वा भगवन्नभिष्णग इन्द्रः सुत्रामास्व वाङवोऽभिः स्वमृणेको भवतु विश्ववेदाः बाधतान्द्रेषो अभयम् कृणोतु सुपेर्यस्य तस्य भयम् सुमतौ यज्ञि यस्यापि भद्रेऽसौ मनसे स्याम स सुत्रामास्व वाङ्गिन्द्रो अस्मे आराचिद्वेषस्सनुपर्युजोत् जानमित्यौर्धोऽर्तावसुरे जानम् बीजानम् देवावश्विनामभिसुम्नैरवर्धताम् तावाम्मित्रावरुणातारयच्छिति शुम्ने तत्पदायजामसि दिवो प्राणाय सख्यैरभिश्या आम रक्षसाः अथा आचिन्नु यद्यधिषामहे वामभिप्रियम् रेक्नः पत्यमानाः तद्वाम् वायत्पुष्यतिरेक्नः संवानकिरस्य मघानि असावन्यो असुरसूयदद्यौ स्मम् विश्वे एषाम् वरुणासि राजा मूर्धारथस्य तदा कन्नैतापतेन सान्द्रकध्रुक् अस्मिन् स्वे एतच्छकपोत एनोहिते मित्रे निकरान् हन्ति वीरान् अवोर्वा यद्धात्तनोष्पवः प्रियासु यज्ञियाः सर्वाः युगोर्हि अवप्रियादिष्टनशूरो निमित्तरश्मिभेः युवम् ह्यप्नराजावसे एतम् तिष्ठद्रथम् न धूर्षदम् न दर्षदम् आनः कणो भयन्ते नृमेधस्तत्रे अम्भसः सुमेधस्तत्रे अम्भसः रोष्पस्मै पुरोरथमिन्द्रायशोषमर्चत अभिनेके चिदुलोककृत्सङ्गे समत्सुवृत्रहास्माकम् बोधिचोदिता नभन्तामन्यकेशाञ्ज्याका अधिथन्वसु त्वम् सिन्धोऽवासृजोऽथराजो अहम् नहिम् अशत्रुरिन्दयज्ञषे विश्वम् पुष्यसि पार्यन्तन्त्वापरिष्वजामहे नभन्तामन्यकेषाञ्ज्याका अधिथन्वसु विशु विश्वा अरातयोर्यो नोऽ याः अस्ता वे मथम् यो न इन्द्रजिघांसति याते एरातिर्दतिर्वसु नभन्तामन्यकेशा अञ्ज्याका अभिधन्मसो यो न इन्द्राभितो जनो गृकाजुरादिते सति अधस्पदन्तमीङ् वि बाधो असि सा सहिर्नभन्तामन्यकेशा अञ्ज्याका अभिधन्मसो यो न इन्द्राभिदासति सनाभिर्यश्च अपतस्य बलम् तिरमहे पद्यौरधत्मनानभन्तामन्यकेषाञ्चाका अधिजन्वसु वयमिन्द्रित्ममारभामहे ऋतस्य नः पथा न याति विश्वानियुदितानभन्तामन्यकेषाम् चाका अधिजन्मसु अस्मभ्यं सुत्वमिन्द्रताम् शिक्षया दोहते प्रतिपरम् चरित्रे अच्छिद्रोऽ यद्यथा आनः गौः उभे यदिन्द्र रोदसे आपप्राथोषा इव महान्तन्तामहीनाम् सम्राजम् जर्षणीनाम् देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् अवस्मदुर्हणा यतो मर्पस्य तनुः स्थिरम् अतस्मरन्तमे इङ्गृधिजो अस्माकादिदेशति देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् अपत्या बृहतीरिशो अविश्वश्चन्द्रा अमित्रहन् े एविश्वक्रतोनुहीन्द्रविश्वाभिरोतिभिर्देवी जनित्यजीजनद्भद्रा जनित्यजीजनत् अभयत्वंशदक्रदविन्द्रविश्वा आदिधोनुषे रयिन्न सुन्वतेरच आसहस्रिणे एभिरोतिभिर्देवी जनित्यजीजनद्भद्रा जनित्यजीजनत् अपस्वेदा आदिवाभितो विश्वक्पतम् तु दूर्वा आयायि पतम् तभोग्या अस्मदे एतदुर्मर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् दीर्घम् शङ्कुशम् यथा शक्तिम् बिभर्षिवन्तु मह पूर्वे एणमघवन्पदायो भजाम् यथा आयमो देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् न किर्देवामि नेमसि न किरायो ओपयामसि मन्त्रश्रुत्यम् चरामसि पक्षेभिरपि भी पक्षेभिरत्राभिसंरभामहे यस्मिन् वृक्षे सुपलाशे देवैः सम्पिबते यमः अत्रा नो विष्पतिः पिता पुराणाम् अनुवेदति पुराणाम् अनुवेदनम् तञ्चलन्तम् पापयामुया सूयन्नभ्युरागशन्तस्माः अस्पृहयम् पुनाः यम् कुमारनवम् रथमचक्रम् मनसा कृणोः एके एषम् विश्वतः प्राञ्चमपश्यन्न तिष्ठसि यम् कुमारप्रावर्तयोरथम् विप्रेभ्यस्परे तम् सामानुप्रावर्ततसमितो नाव्याहितम् कः कुमारमजनयत्र सङ्गो निरवर्तयत कस्मित्तदज्जनो अब्रूयादनुदेजीयसा भवत् यथा भवतनुदेजी ततो अग्रमजायत इदम् यमस्य सादनम् देवमानम् यदुच्यते यमस्य धम्यते नाडीरयङ्गेरभिः परिष्कृतः केश्या अग्निम् केशीविषम् केशे विभर्तिरोदसी केशे विश्वं स्वर्दृशे केशी संज्योतिरुच्यते मुनयोपातरशनाः पिशङ्गा आवसते मलाः वा तस्यानुध्रानीयन्ति यद्देवासो अविक्षत उन्मदिता मौने येन वातातस्थिमा वयम् शरीरे तस्माकम् योजम् मर्ता आस अभिपश्यथ अन्तरिक्षेण पतति विश्वा आरूपा वचाकषत् मुनिर्देवस्य देवस्य सौकृत्याय सखा आहितः वा तस्याश्वो अवायोसखाथो अदेवेशितो मुनीः उभौ समुद्रावाक्षेर्यश्च पूर्व उतापरः अप्सरसा अङ्गम् धर्वाणाम् चरने चरणे चरन् केशे केतस्य विद्रान्सखाः स्वादुर्मलिन्दमः वायुरः स्म उपामन्थत्तिनष्टिस्मा पुनर्नमा केशे विशस्य पात्रेण यद्धुद्रेणापि वत्सः उत दे एव अवहितम् दे उतागश्च कृषन् दे वा देवा आजीवयसा पुनाः वा विमौ वातौ वात आसिंसोरापरावताः दक्षन्ते अन्य आवा आतु परान्यो वा आतु यद्रपाः आवा आत वाहि भेषजम् वि वा यद्रपाः त्वम् हि विश्वभे एषजो देवानाधोत ईयसे आत्वा आगमंसन्त आतिभिरथो अरिष्टता आतिभिः दक्षन्ते भद्रमाभार्षम्बरायक्ष्मम् सुवामिते ते त्रायन्तामिह देवास्त्रायताम् मरुता अङ्गणः त्रायन्ताम् विश्वा भूता यथा जमरपा असत् आप इद्वा उभेषापो अमीवचातनीः आपः सर्वस्य भेषतीस्तास्ते एकन्तु भेषदम् हस्ताभ्याम् अनामयित्नुभ्यान्ताभ्यान्तोपस्पृशामसे तवत्य इन्द्रसख्येषु बह्नयऋतम् मन्दानाभ्यदर्दिरुर्बलम् यत्रा आदशस्यन्नुषसो ओरिणन् नपः कुत्सा जगतन्मन् न्यश्च दंसजाः अबासृजः प्रस्पशञ्चयो गिरेऽनुदा च पुस्रा अपि बो मधु प्रियम् अवर्धयो वनिनो अस्य संसृसा दया गिरा विसौर्यो मध्ये अमुदद्रथम् दिवो विदद्धासाय प्रतिमानमार्याः गृह्णानि विप्रोरसुरस्य मायिन इन्द्रो व्यास्यच्चकृ मृजिष्मना अनाधृष्टानिधिषितो निधीङ्ग्रदेवाङ्मृणदयास्या मासेव सूर्योपसुपुर्यपाददे गृणानशत्रो ओङ्ग्रशणाद्युग्मता अयुद्धसेनो विभ्राः विभिन्नता दासद्वत्रहातुज्याः निजते इन्द्रस्य वज्रादभिभेदभिष्णसः प्रामच्छुन्ध्यो रजहादुशानाः एतात्याः श्रुत्या आनि केवलायदेक एकमकृणोरयज्ञम् मासाम् विधानमदधा अधिद्य विप्रजा विभिन्नम् भरति प्रतिम्बिता सूर्यरश्मिरहरिकेशः पुरस्तात्सविता ज्योतिरुदयाम् अजस्रम् तस्य पूषा प्रसभेया आदिविद्रान् सम्पश्यन् विश्वा भुवनानि गोपाः विचक्षाः एष दिवो आस्त आपप्रियान् रोदसी अन्तरिक्षम् स विश्वा चे एरभिचष्टे हृता चेरन्तरा पूर्वमपरम् च केतुम् रायो बुध्नः सङ्गमनोऽपसूनाम् विश्वा आरूपाभिजष्टे चे एभिः देव इव समिता सत्यधर्मेन्द्रो नतस्थौ समरेधनानाम् विश्वापसुं सोमगन्धर्वमापो ओदृशुषेस्तधृते नाव्यायम् तदन्मवैरिन्द्रो ओरारहाण आसाम् परिसूर्यस्य परिधीम्पश्यत् विश्वापसुरभितन्नोऽवृणातु दिव्यो गन्धर्वो रजसोऽभिमानाः यद्वा आकासत्यमुदयन्न विद्मधियोहिन्वानो इन्द्रोऽयाः स्वस्तिमविन्दश्चरणे नदीनामवावृणोत्तुरो अश्नौ रजाना रासा अङ्गन्धर्वोऽचरिन्द्रो दक्षम् परिजाना दहीनाम् अग्नेतवश्रवोमयो महिभ्रान्ते अर्चयो विभावसो बृहद्भानो शवसापाजमुख्या अन्धधा आसिदाशुषे एकवे पावकवर्चा शुक्लवर्चा अनो नवर्चा उदयर्षिभानुनाः पुत्रो मातरा विचरन्नुभावसि भृणक्षिरोदसि उभे ऊर्जोरवाज्यातवेदस्वशस्तिभिर्मन्दस्वधेजर्हितः न्दसुर्भोरिवर्पसश्चित्रोदयो वामजाताः गिरन्नर्णे प्रथयस्व जन्तुभिरस्मे राजो अमर्त्य सदर्शदस्य वपुषोऽभिराशिवृणक्षिसारसिम् रतुम् इष्कर्तारमद्भरस्य प्रचेतसङ्ख्ययन्तम् राजसो महः रातिम् वामस्य सुभगाम् महेमिषन्दधासिषारसिम् रयिम् वृतावानम् महिषम् विष्पदर्शतमग्निम् सुम्नायदधिरे पुरोचनाः श्रुत्कर्णम् सप्रथस्तमन्ता गिरादै यम् मानुषा युगाः अग्ने अच्छाः वदेहनः प्रत्यङ्गः सुमनाः भव प्रणो यच्छ विषस्पते स नदासि नस्पम् प्रणो यच्छत्वर्यमा प्रभवः प्रबृहस्पतिः प्रदेवाः प्रोतसूनृता रायो देवी ददातु नः सोमम् राजा नमवसे गिर्भिरहवामहे आदित्यान्विष्णुम् सूर्यम् ब्रह्माणम् च बृहस्पतिम् इन्द्रवायो बृहस्पतिम् सुहवेहवामहे यथा आदः सर्व इज्जनः सङ्गत्याम् सुमनासत् पर्यवणम् बृहस्पतिमिन्द्रन्दानायचोदय वातम् विष्णुम् सरस्वतीम् सवितारम् च वादिनम् त्वन्नो अग्ने अग्निभिर्ब्रह्म यज्ञम् च वर्धय त्वन्नो देवतातये राजोदानायचोदय अयमग्ने चरितात्रे भद्रह्म्यशर्मत्रिवरो समस्तित आरे हिंसाः नामपदिद्युमाकृधि प्रवत्ते अग्ने जनिमापितो यतः सा चे मविष्वाभुवनान्द्रिञ्जसे प्रसप्तयः प्रसरिषन्त यः पुरश्चरन्ति पशुपा इवत्मनाः उत वा उपरि वृणक्षिपप्सद्बहोरग्न उलपस्य स्वधावः उत खिल्या भवन्ति मा ते एहेरिन्द्रविषीञ्चुक्रुधाम यदुद्वतो या निमतो यासिवत्सत्पृथगे हिप्रगर्धिनीवसेना यदा देवातो अनुवादिशोतिर्वक्ते एवश्मश्रुवपसि प्रभूम प्रत्यस्य श्रेणयोदृश्र एकम् नियानम् बहवो रथा आसः बाहो यदग्ने अनुमर्मृजानोऽन्यम् वृत्तानामन्देशि भूमिम् उत्तेषुष्मा जिहतामुत्तेः अर्चिवृत्तेः अग्ने शु समानस्य बाजाः बुच्छ्वस्वरिनमवर्धमान आत्वाद्यविश्वे वसमसदन्तु अपामिदन्ययनम् समुद्रस्य निवेशनम् अन्यम् कृणश्वेतः पन्थान्तेन याहि वशाङ्कनो आयनेते परायने दूर्वा आरोहन्तु पुष्पिणीः हृदाश्च पुण्डरी एकाणि समुद्रस्य गृहा इमे इति अष्टमाष्टके सप्तमोऽध्यायः